श्रयन्ता प्रधानमंत्री प्रधानमन्त्री नरेन्द्रमोदी अवादीत् यत् डिजिटल इंडिया इत्यस्य दिशायां ग्रामस्तरस्य उद्यमी जनानां एकस्य समूहस्य निर्माणं भवति प्रधानमन्त्री न्यगादीत् यत् श्रेष्ठ नवीनश्च भारतस्य कृते अस्य कार्यक्रमस्य सतत सुचारू संचालनस्य आवश्यकता वर्तत जम्मूकश्मीर कश्मीरी पत्रकार सैयद शुजात बुखारी वर्य अद्य बारामुला जनपदे तस्य पैतृक कब्रिस्ताने पञ्चतत्वे विलीन अभवत् अपि च असमे त्रिप्रायां मणिप्रे सहस्रजना आवासहीना अभवन प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी अवादीत् यत् डिजिटल इंडिया इत्यस्य दिशायां ग्रामस्तरस्य उद्यमी जनानां एकस्य समूहस्य निर्माणं भवति मोदी डिजिटल इंडिया कार्यक्रमस्य लाभार्थिभि सह वीडियो कॉन्फ्रेंसिंग इति दृश्यश्रव्यसंचारमाध्यमेन संवादम् अकरोत् प्रधानमन्त्री न्यगादीत् यत् श्रेष्ठ नवीनश्च भारतस्य कृते अस्य कार्यक्रमस्य सतत सुचारू संचालनम् आवश्यकं वर्तते। सह जनष् डिजिटल साक्षरताया प्रसारस्य विषय अपि बलं दत्तवान् श्रीमोदी अवादीत् यत् विगत चतुर्वर्षि एनडीए सर्वकार डिजिटल इंडिया इत्यस्य विभिन्नष् स्तरष् कार्य करिष्यति श्रीमोदी अवादीत् यत् डिजिटल इंडिया कारणेन बीपीओ क्षत्रि परिवर्तनं दृश्यत जम्मू कश्मीर कश्मीरी पत्रकार सैयद सुजात बुखारीवर्य अद्य बारामुला जनपदे तस्य पैतृक कब्रिस्ताने पञ्चतत्वे विलीन अभवत् अस्माकं वार्ताहरानुसारेण बुखारीवर्यस्य नमाजे जनाजा कार्यक्रमे विभिन्न वर्गाणां जना गतदिने अज्ञात भुशुण्डीधारिण श्रीनगरे तस्य कार्यालयस्य बहि आगत्वा गोलिकाप्रहारा कृतवन्तः यस्मात् कारणात् तस्य मृत्यु अभवत् सर्वे जना बुखारी वर्यस्य अपि तस्य अधिकारी जनानां हत्याया व्यापक निन्दाम् असमे त्रिप्रायां मणिप्रे च जलाप्लाव अनेकानि स्थलानि जले निमग्ना सन्ति त्रिपुरायां अद्य तृतीय दिवसि जलाप्लावस्य स्थिति गभीरा वर्तता गतरात्रिकालत नदीनां जलस्तर न्यूनता भवति गृहमन्त्रालय भारतीय वाय। वायुसया मालवाहक वायुयानत उत्तरप्रदर्शस्य विंशति नौकाभि सह राष्ट्रियापदामोचनबलस्य सैनिका प्रेषितवान् सैन्यबलानां अर्द्धसैन्यबलानां सैनिका साहाय्यकार्य तत्परा सन्ति प्रभावित क्षि अशीति चिकित्सादलानि प्रक्षितानि सन्ति सहस्राधिकजना आवासहीना अभवन त्रिप्रायामपि अद्य तृतीय दिवस अपि जलाप्लावस्य स्थिति गभीरा वर्तता पंचत्रिंशत् सहस्रजना अस्थाई। पञ्चदशाधिक शतं साहाय्यशिविरेष् निर्वाहं कुर्वन्ति छीसीक छत्तीसगढस्य बस्तरक्षेत्रस्य सुकमा जनपदे अद्य सुरक्षाबलानि त्रय माओवादीजनान् मारितवन्त आरक्षिबलस्य अधीक्षक अभिषेक मीना अस्या घटनाया पुष्टिम् अकरोत् तेन प्रोक्तं यत् सुकमा जनपदस्य चिंतागुफा क्षेत्रे नक्सली विशेष बलानी अन्वीक्षणाभियानम् अकरोत् तेन प्रोक्तं यत् नक्सलवादिनः गोलिकाप्रहाराः अपि अकुर्वन् इति वार्ताः